वैशम्पायन उवाच सह देवोऽपि गोपानां कृत्वा वेषमनुत्तमं भाषां चैषां समास्थाय विराटमुपयादथा गोष्ठमासाद्यतिष्ठन्तं भवनस्य समीपतः राजाथ दृष्ट्वा पुरुषान् प्राहिणो जात विस्मयः समायान्तमभिप्रेक्ष्य भ्राजमानं समुपस्थाय वैराजा पप्रच्छ कस्य वा कुतो वा त्वं वां तु चिकीर्षति नहि मे दुष्टपूर्वस्त्वं वैष्योऽस्मिनां नाहमरिष्टनेमिर्गोसङ्ख्यासं कृपाण्डवानाम् सम्प्राप्य राजानां मित्रतापणं ततो प्रवीनमेघ महोखनिस्वनः वैश्योस्मिनां नाः मरीष्टने मिर्गोसंख्या संकृपाङ्गवानां सम्प्राप्य राजानां मित्रतापणं ततो प्रवीनमेघ महोखनिस्वनः वैश्योस्मिनां नाः मरीष्टने मिर्गोसंख्या संकुरुपङ्गवानां वस्तुं त्वयिच्छामि विशाम्वरिष्ठं वस्तुं त्वयिच्छामि विशाम्वरिष्ठं तान् राजसिंहान्न हि वेद्मि पार्थान् न शक्यते जीवितुमप्यकर्मणा न च त्वदन्यो मम रोचते नृपः विराटौ वाच त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि आचक्ष्मेतत्त्वममित्रकर्षना न वैषिकर्मत्वयि विद्यते क्षमं कस्यासि राज्ञो विषयादिहागतः किं वापि शिल्पं तव विद्यते कथं त्वमस्मासु निवस्य से सदा वदस्व किञ्चापि तवेह वेतनं सह उवाच ख्यावा भूतम् भविष्यञ्च यच्च सङ्ख्यागतं गवासुविसमया तुष्ट कुरु राजो युधिष्ठिरः क्षिप्रम् च कावो बहुला भवन्ति न तासुरोगो भवतीह कश्चन तैस्तैरुपायं विदितं ममैतदेतानि शिल्पानि मयि स्थितानि वृषभांश्चापि जानानि राजन्पूजितलक्षणान् येषां मूत्रमुपाघ्राया अपि वन्ध्या प्रसूयते शतं सहस्राणि समाहितानि सवर्णवर्णस्य मिमिश्रितान् गुणैः सपालान् भवते ददाम्यहं दा तदा तया मे पशवो भवन्त्यः वैशम्पायनौ वाचा तथा स राज्ञो विदितो विषाम्पतेरुवास तत्रैव सुखं नरोत्तमः न चैनमन्येऽपि विदुःखतञ्चना प्रादाच्च तस्मै भरणं यथेप्सितम् अथ एकादशोऽध्यायः